भगवद्गीता चाप्टर् ट्वेल्व् वर्षस् वन् टु टेन् अधद्वादशोऽध्यायः अर्जुन उवाच एवं स तदयुक्ता ये भक्तास्त्वां पर्युवासदे ये चाप्यक्षरमव्यक्तं तेषां ते योगवित्तमाः श्रीभगवानुवाच मय्या वेश्य मनो ये मां नित्ययुग्रा उपासदे श्रद्धया परयो वेदास्ते मे योग्रतमामदाः ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासदे सर्वप्रथमचिन्त्यं च कूढटस्तमजलं ध्रुवम् सन्नियम् सन्नियमेन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रथाः क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखं देहवद्धिरवाप्य देव ये तु सर्वाणि कर्माणि मयि संयस्य मत्वराः अनन्येनैव योगेन मां ध्यायन्दमुपासदे तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थमय्यावेशितचेदशां मय्येव मन आधत्स्व मयि बुद्धिं निवेशयत् निवसिष्यसि मय्येव अद ऊर्ध्वं न संशयः अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तदो मामिच्छाप्तुं धनञ्जय अभ्यासेप्यसमर्थोऽसि मत्कर्मपरमो भव मदर्थमपि कर्माणि कुर्वन् भगवद्गीता चाप्टर् ट्वेल्व् वर्षस् लेवेन् टु ट्वेण्टि अदै तदप्य शक्तोऽसि कर्तुमद्योगमाश्रितः सर्वकर्मफलत्यागं तद कुरु यदात्मवान् श्रेयो विज्ञानमभ्यासाज्ञानाध्यानं विशिष्यते ध्यानात् कर्मभलत्यागत्यागाच्चान्दिरनन्तरम् अद्वेष्टा सर्वभूतानां मैत्रकरुण एव च निर्ममो निरहङ्गारसमदुःखसुखक्ष्मी सन्तुष्टसततं योगी यदात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः यस्मान्नो द्विजते लोगो लोकान्नो द्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः अनपेक्षशुचिर्दक्ष उदासीनो ददव्यथः सर्वारम्भपरित्यागी यो मद्भक्तः समे प्रियः यो न पृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः समः मित्रे च तथा शीतोष्णसुखदुःखेषु समःसङ्गविवर्जितः तुल्यनिन्दास्तु निर्मौनिसन्तुष्टो येन केनचिद् अनिकेदस्थिरमधिर्भक्रिमान्मे प्रियो नरः ये तु धर्म्यामृतमिदं यथोक्तं श्रद्धदानां मत्परमा भक्ता सेदीव मे प्रियाः ॐ तत्सदिति श्रीमद्भगवद्गीतासु द्वादशोऽध्यायः